मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं फोर्टि एय्ट् इन्द्रपराजयम् श्रीगणेशाय नमः गृप्समद उवाच एवं गदित्वा देवेन्द्रो दैत्येन्द्रं क्रोधसंयुधं तारकं शरवर्षेण ववर्षरणमण्डले ये कस्मान् मन्त्रिताद् बाणादनन्तैर्निःसृतैः शरैः बभूवुर्दैत्यसम्कादाः पीडितास्तैः समन्तदः ततो दैत्यस्य दैत्ये स्या प्रधानप्रमुखा स्थिताः शरवर्षाणि सर्वत्र चक्रु परमदारुणाः तैभाणायुर्देवसैन्यानां हदा वीरा अनेकशः चिन्नाङ्गाः पतितास्तत्र रुधिरौखप्रवर्षिणः यत्र तत्र पलायन्ददेवाभयसमाकुलाः त्रादारं नाभ्यपद्यन्तप्रलयेषु यथा प्रजाः येषाम् तत्कर्म दृष्ट्वा अग्निधर्मादयस्तत्र कालमृत्युपमान् दृढान् तैराकदम् बलम् पूर्णम् दैत्यानाम् यत्र तत्र मृता मुमूर्षवः सर्वे राक्षसा मृधे ततोऽधिकुपितो दैत्यस्तारकोदिभयानकः निष्कास्य सुदृढं बाणं मोचयामासदारुणम् आकर्णं धनुराकृष्य दीप्तो बाणो सुरेश्वर इन्द्रस्य सहसागत्य हृदि सम्पतितोऽभवद तेन सम्पीडितो देवो मूर्चिदो देवनायकः मुहूर्तात्सावधानो सावधानो भूध्वजं हस्ते समाददे वज्रेण ताण्डितोऽत्यन्तं तारको दैत्यपुङ्गवः पदितः धरापृष्ठे गदप्राण इवाभवत। एवं वरुणवह्न्याद्याैर्वायुधर्मकुबेरकैः हदा दैत्या अनेके च पतिता मूर्च्छिता मृदाः हाहाकारश्च सर्वत्र दैत्यसैन्ये प्रवर्तितः पलायन्त च दिक्प्रान्ते त्रासिता देवनायकैः ततः शुक्रेण ते सर्वे तारकाद्या महासुराः विद्यया सावधानाश्च कृदा युद्धाय सज्जिदाः अग्निमन्त्रसमायुक्तं बाणं धनुषि सन्दधे तारकक्रोधसंयुग्धो दाहकं स पतितो देवसैन्ये च बाणस्तस्मान् महाबलः निःसृद्धपुरुषस्तत्र भक्षयामास वै सुरान् मेरुमन्दरसङ्कास्यो विचचार महाबलः देवसैन्येषु दैत्येन्द्रप्रलयाग्निसमोदहन् अग्निज्वालाश्च सर्वत्र समुद्भूता भयानकाः अध ह सहितान् मृद्धे आहाकाररवा देवाः पलायनमकुर्वत तत्रापि पुरुषोऽत्यन्तम् भक्षयामास चामरान् तदक्रोधसमयुक्तो महेंद्रो वारुणम महद अस्त्र धनुषि संग्रह्य मृधे तुणं तस्माचारा भूत स निसृद्ला बहु सर्वत्र गर्जित जलौके न प्रशांत सहसा कृत अस्त्रेण पुष सो पतिमूर्धनी तदो दस सवधा बभूविरे दैत्या वृष्ट्या वृष्ट चीडिता बल संयुतारत दग्धा के जिन्महासुरा जलौन के तथा केजिवाहिता दैत्याबल सैन्यम पीड़ित वारुणेन दैत्या, दैक्या मृत्युं भयानक ततः ता स तारको दैत्यक्रोधसंरक्तलोचनः वायुवास्त्रं तन्निवृत्त्यर्थं सन्तधेदि भयानकं मुमोच धनुराकृष्य देवसैन्ये महासुरः तेन वारुणमस्त्रं चग्रस्तं ग्रस्तं वै शान्तिमागमद वायुना प्रबलेनैव कूर्णिदा देववाहिनी शुष्कपत्रसमतत्र बभ्राम समराङ्गणे तदसमागदो दैत्यस्तारको दिभयानकः खड्गेन देवराजं तं जघानामर्षदो दृढम् खड्गाखादेन देवेन्द्रम् पतितम् मूर्च्छया भृशम् सङ्गृह्य दैत्यराजस्तु तारकस्वबलं ययौ मदासुरस्य सान्निध्ये स्थापयामास देवपं मदेन मूर्च्छितो देवो बद्धपाशै समन्तदः तदोहाकृतं सर्वै पलायदधिशो सैन्यं देवगणानां वै विनाथम् भयसंगुलं यमं च सहसा गत्यगदया हृदि विव्यधे तारक स महामूर्च्छां जगामप्रेदनायकः सङ्गृह्य स्वबले नीत्वा हर्षिदो भून्महासुरः एवमग्निमुखाः सर्वे धृतास्ते दैत्यनायकैः अनाथं देवसैन्यं तत्पलायदभयाकुलं मृदं भग्नं च शस्त्रैः संहदं दैत्याैर्महाबलैः एवं निर्जित्य दैत्येन्द्राजहृशुर्नादसंयुधा देवाः सर्वे भयोद्विघ्नाः शरणं शङ्करं ययुः ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दिश्रीमन्मोद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते इन्द्रपराजयोत्नामाष्टचत्वारिंशोऽध्यायः ॐ